ंशः सर्गः इत्युक्ता सीतयाघोरम् राक्षस्यः क्रोधमूर्च्छिताः काश्चित् जग्मुस्तदाख्यातुम् रावणस्य दुरात्मनः ततः राक्षस्यो भीमदर्शनाः पुनः परुषमेकार्थमनर्थार्थमथा अद्येदानीम् तवा नार्ये सीते पापविनिश्चये राक्षसो भक्षयिष्यन्ति माम् समेतद्यथा सुखम् सीताम् ताभिरनार्याभिर्दृष्ट्वा सन्तर्जिताम् तदा राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत् आत्मानम् खादता नार्या न भक्षयिष्यथा जनकस्य सुतामिष्टाम् स्नुषाम् दशरथस्य च स्वप्नो ह्यद्यमया दृष्टो दारुणोरो महर्षणः राक्षसानामभावाय भर्तुरस्याभावाय च एवमुक्ता स्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः सर्वा एवाब्रुवन्भीता स्त्रिजटाम् तामिदम् वचः कथयस्व त्वया दृष्टः राक्षसीनाम् मुखोद्गतम् उवाच काले त्रिजटा स्वप्रसंश्रितम् गजदन्तमयीम् दिव्याम् शिबिकामम् तरिक्षगा युक्ताम् वाजिसहस्रेण स्वप्ने चाद्यमया दृष्टा सीता शुक्लाम्बरावृता सागरेण परिक्षिप्तम् श्वेतपर्वतमास्थिता रामेण सङ्गता सीता भास्करेण प्रभायथा राघवश्च पुनर्दृष्टश्चतुर्दन्तम् महागजम् आरुढः शैलसङ्काशम् लक्ष्मणः ततस्तु सूर्यसङ्काशौ दीप्यमानौ स्वतेजसा शुक्लमाल्याम्बरधरौ जानकीम् पर्युपस्थितौ ततस्तस्य नगस्याग्रेह्याकाशस्थस्य दन्तिनः भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता भर्तुरङ्कात् समुत्पत्य ततः कमललोचना चन्द्रसूर्यौ मया दृष्टा पाणिभ्याम् परिमार्जति ततस्ताभ्याम् कुमाराभ्यामास्थितः स गजोत्तमः सीतया च विशालाक्ष्यालङ्काया उपरि स्थितः पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम् इहोपयातः काकुत्स्थः सीतया सह भार्यया शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः ततोऽन्यत्र मया दृष्टो रामः सत्यपराक्रमः लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभं उत्तराम् दिशमालोच्य प्रस्थितः पुरुषोत्तमः एवम् स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया न हि रामो महातेजा शक्यो जेतुम् सुरासुरैः राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव रावणश्च मया दृष्टो मुण्डस्तैलसमुक्षितः रक्तवासाः पिबन्मत्तः करवीरकृतः स्रजः विमानात्पुष्पकादद्य रावणः पतितः क्षितौ कृष्यमाण स्त्रियामुण्डो दृष्टः कृष्णाम्बरः पुनः रथेन खर युक्तेन रक्तमाल्यानुलेपनः पिबम्स्तैलम् हसन्नृत्यम् गर्दभेन ययौ शीघ्रम् दक्षिणाम् दिशमास्थितः पुनरेव मया दृष्टो रावणो राक्षसेश्वरः पतितो वाक्षिरा भूमौ गर्दभाद्भयमोहितः सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः उन्मत्तरूपो दिग्वासा दुर्वाक्यम् प्रलपन् दुर्गन्धम् दुःसहम् घोरम् तिमिरम् नरकोपमम् मलपङ्कम् प्रविश्याशुमग्नस्तत्र स रावणः प्रस्थितो दक्षिणामाशाम् प्रविष्टो कर्दमम् ह्रदम् कण्ठे बध्वादशग्रीवम् प्रमदा रक्तवासिनी काली कर्दमलिप्ताङ्गीदिशम् याम् याम् प्रकर्षति रावण से सुता सर्वे मुंडास्तल सक्षिता वराहेण दश्रीव शिशुमेण उष्ट्रेण कुंभकर्णश प्रयात दक्षिणा दिशा एकक्र मैया दृष्ट शेत शङ्खदुन्दुभि निर्घोषैर्नृत्तगीतैरलङ्कृतः आरुह्यशैलसङ्काशम् मेघस्तनितनिस्वनम् चतुर्दन्तम् गजम् दिव्यमास्ते तत्र विभीषणः चतुर्भ्यः सचिवैः वैहायसमुपस्थितः समाजश्च महान् वृत्तो पिबताम् रक्तमाल्यानाम् रक्षसाम् रक्तवाससा लङ्का चेयम् पुरी रम्या स वाजिरथकुञ्जरा सागरे पतिता दृष्टा भग्नगोपुरतोरणा लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता दग्धा रामस्य दूतेन वानरेण तरस्विना प्रीत्वा तैलम् प्रवत्ताश्च प्रहसन्त्यो महास्वनाः लङ्कायाम् भस्मरूक्षायाम् सर्वा राक्षसयोषितः कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः रक्तम् निवसनम् गृह्य प्रविष्टा गोमय सीतामाप्नोति राघवः घातयेत् परमामर्षी युष्मान् सार्धम् हि राक्षसैः प्रियाम् बहुमताम् भार्याम् वनवासमनुव्रता भर्त्सिताम् तर्जिताम् वापि नानुमंस्यति राघवः तदलम् क्रूरवाक्यैश्च अभियाचाम वैदेही मे तद्धि रोचते यस्या ह्येवम्विधः स्वप्नो दुःखितायाः प्रदृश्यते सा दुःखैर्बहुभिर्मुक्ता प्रियम् प्राप्नोत्यनुत्तमम् भर्त्सितामपि याचध्वम् राक्षस्य किम् विवक्षया राघवाद्यभयम् घोरम् राक्षसानामुपस्थितम् प्रणिपातप्रसन्ना हि मैथिलीजनकात्मजा अलमेषा परित्रातुम् राक्षसीर्महतो भयात् अपि चास्या विशालाक्ष्या न किञ्चिदुपलक्षये विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षणम् छाया वैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम् अदुःखार्हामि माम् देवीम् बैहायसमुपस्थिता अर्थसिद्धिम् तु वैदेह्याः पश्याम्यहमुपस्थिता राक्षसेन्द्रविनाशम् च विजयम् राघवस्य च निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम् दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ईषद्धिघृषितो वा स्या अकस्मादेव वैदेह्या बाहुरेक प्रकंपते। करेणु हस्त प्रतिमः सव्यश्चोरुणोत्तमः वेपन् कथयती वा स्या राघवम् पुरतः स्थितम् पक्षी दशाखानिलयः प्रविष्टः पुनः फुना पुनश्चोत्तम फुना सान्त्ववादी सुस्वागताम्बाच मुदीरयाणः पुनः फुना पुनश्चोदयतीव हृष्टः ततः सा श्रीमती बाला भर्तुर्विजयहर्षिता अवोचद्यति तत्तथ्यम् भवेयम् शरणम् हि वः इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये सुन्दरकाण्डे सप्तविंशः